अथ षष्ठस्कन्दः यथा हि सर्वरोगाणां नाश्ये संजीवनी भवेद् नाम सङ्कीर्तनं विष्णुस्तथैव निखिलां हसाम् अजामिलो दुराचारो यमदूतभयाद् ब्रुवन्नारायणेऽधिपुत्रस्य नाम मुक्तो किलाद न समी युष्माभिर समीपेऽपि युष्माभिर्हरिमर्चताम् युधिब्रुवन्धर्मराजकिङ्करान् हरिमानमद प्राचेद सस्य दक्षस्य तनयान् कर्मनिष्ठितान् हर्यश्वशबलाश्वादीन्नारदो जीवेश ब्रह्मबुद्ध्यादितत्त्वानि प्रश्नमूलतः उद्वेद्य तान् विनिर्मुक्तान् चकारकृपया मुनिः दक्षस्य कन्यका वंशे जात इन्द्रसुराधिपः अदर्शने गुरोस्त्वाष्ट्रमाचार्यमवृणोत्स्वयम् तेनोपदिष्टमन्त्रेण जयम् प्राप्य वृषा पुनः तस्यासुरम् पक्षपादम् दृष्ट्वा तमवधीत्कृधा गुरोर्हत्याम् विनिक्षिप्य स्त्री भू वृक्षजलेषु वै अनुगृह्य वरैरेतान् स्वस्त इन्द्रोव सन्मुदा तस्ा पुत्र हतम श्रुवा देंवराजजिखांसया अयज त्र चोत्पन्नों वृत्र परमु तेना केशवश्य कृपया विश्वर्मण दघी चीताज्रदिंद्रो वृत्रमद पश्चात्प्राप्ताम् वृत्रहत्याम् क्रतुना वैष्णवेन तु निर्हृत्येन्द्रसुरैः साकम् त्रैलोक्यम् पर्यपाल वृत्रोऽभगवद्भक्तः पूर्ववासनयान्विदः अन्धकाले हलिम् स्मृत्वा शाश्वतम् पदमागमद चित्रकेदुरपुत्रः नुग्रहात् सुदं लब्ध्वा हृष्टः पुनस्तस्य मृते शोकाकुलो भवद नारदानुग्रहाल् लब्धमन्त्रो निर्दुःखमानसः सङ्घर्षणप्रासादेन ज्ञानवान् व्यजरद्दिवि कैलासवासिनम् देवम् दृष्ट्वा वज्ञाय सप्तो देव्या चित्रके दुर्वृत्रो भूमौ व्यजायत असुरत्वेऽपि तस्यासीदुपासनबलाद्धरेः इन्द्रस्याश्चर्यजननी भक्तिर्भगवधि स्थिरा पुत्र नाश्यप्रयुक्तेन कोपेनेन्द्रवधार्थिनी विधिर्भगृ निर्देशेन व्रतं वैष्णवमाधनोध तस्या नियमभङ्गेन गर्भचित्वा सुरेश्वरः चकारस्वानु पुत्रान् सप्तमरुद्गणान् यदि षष्ठस्कन्दः